श्रीहरये नमः अतः पञ्चदशोऽध्यायः मैत्रेय उवाच प्रजापत्यं तु तत्तेज परतेजोहनं दितिहे दतारवर्षाणि सतं सङ्गमानासुरार्धनात् लोके तेन कथा लोकपालाहतौ जः न्यवेदयन् विश्वसृजे द्वान्दव्यधिकरं दिशां तमयेतत् विभो नख्यव्यक्तं संविज्ञायद्वयं वृषं न ह्यव्यक्तं भगवता परेषामपरेषां त्वं भूता नामसि भाववेत् नमो विज्ञानवीर्याय माययेधम् उपेयुषे गृहीतगुणभेताय नमस्ते व्यक्तयोनये एत्वानन्येन भावेन भावयद्यात्मभावनम् आत्मनि प्रोतभुवनं परं सदसात्मकं तेषां सुपक्वयोगानां जितस्वास्तेन्द्रियात्मनां लब्धयुष्मत्प्रसादानां न यश्च वा शा प्रजा सर्वा गावस्तन्त्ये त्वयन्त्रताः हरन्ती बलिमायत्तास्तस्मै मुख्यायते नमः सत्वं विधस्त्वसम्भूमन् तमसा लुप्तकर्मणाम् अधप्रदयया दृष्ट्याम् आपत्नानर्हशीक्षितुम् एष ओ जह्कास्यपमर्पितं दिशस्तिमिरयन् सर्वा वर्धते अग्निरिवैदसें मैत्रेयौ वाच सप्रहस्य महाभागो भगवान् सप्तगोचरः प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा पूर्वजासनकाधयः चेरुर्विहाय सा लोकान् लोकेषु विगतस्पृहाः तयेगता गता भगवतो वैकुण्ठस्यामलात्मनः ययोर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् वसन्ति यत्र पुरुषा सर्वे वैकुण्ठमूर्तयः ये निमित्तनिमित्तेन धर्मेणाराधयन् हरिं यत्र साध्यः पुमानास्ते भगवान् शब्दगोचरः सत्वं विष्टभ्यविरजं स्वानाम्नो मृडयन् यत्र नैः श्रेयसं नाम वनं कामधुहैद्रुमैहे सर्वर्तुश्रीभिर्विभ्राजत् कैवल्यमिव मूर्तिमत् वैमानिका सललनाश्चरितानि यत्र गायन्ती लोकसमलक्षपणानि भर्दुः अन्तर्जलेनो विकसन्मधुमाधवीनां गन्तेन कण्ठितधियोऽप्यनिलं धात्यूगं स सुखतित्रिबर्हिणां यः कोलाहलो विरमते चिरमात्रमुत् चेत् भृङ्गादिपे हरिकथामिव गायमाने भुजपारिजाताः पुन्नागनागबकुलाम्बुजपारिजाताः गन्तेऽर्चिते तुलसिकाभरणेन तस्य यस्मिन् तफः सुमनसो बहुमानयन्ती यत्सङ्कुलं हरिभधानतिमात्रधृष्टे वैदूर्यं े ममयैर्विमानैः येषां बृहत्कटितटास्मितसोऽभिमुख्यः कृष्णात्मनां नरज आदतुर् याद्यैः श्रीरूपिणी क्वणयति चरणारविन्दं लीलाम्बुजेन हरिसद्मणिमुक्तदोषा संलक्ष्यते स्फटिककुढ्य उपेत हेम्नि सम्मार्जति वै यदनुग्रहेणन्ययत्नः वापीषु विद्रुमतडां स्वमलामृताप्सु प्रेष्यान्वितानिजवने तुलसीबिरीसम् स्वलकमुन्न स्वलकमुन्नसमीक्षवक्त्रम् चेशितं भगवदेत्यमदाङ्गयच्छ्रीः यज्ञव्रजत्यकवितो रचनानुबाधात् शृण्वन्ति येन्यविषया कुकथामधिग्नीहे यास्तु श्रुता हतभगैर्ृभिरातर्साराः तांस्तान् क्षिपन्त्य शरणेषु तमः सुहन्त येऽभ्यर्तितामपि च नो नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्म यत्र नारादनं भगवतो वितरन्त्यमुष्य सम्मोहिता विततया भतमाययाते यच्च व्रजन्त्यनिमिषां वृषभानुवृत्या दूरे यमाह्युपरि भर्तुर्मितः सुयसनकथनानुराग वैक्लव्यभाष्पकलया पुलकीकृताङ्गाः तद्विश्व कुर्वती कृतं दिव्यं विचित्र बुधाक्र्यभिमानसोषेर् आपुः परामुदमपूर्वमुपेत्ययो तस्मिन्नतीत्यमुनयषड् सज्जमानान् कक्षा समानवयसा बत सप्तमायां केयूर कुंटल किरीट विटंक गृहीतगौतौ परा केयूरकुटलटंकेशौ मेरेप वनमिकया निवीत विन्स्तया सीतचतुष्टुम वक्त ब्रुवा कुटिफुटन रक्त क्षण न मना्रभसम दधान द्वार्ये तयोर्निविशोर्मिषतोरपृष्ट्वा पूर्वा यथा पुरटवज्रखपाटिकायाः सर्वत्र ते विषमयामुनयस्वधृष्ट्या ये सञ्चरन्त्यविहता विगधाभिशङ्काः तान् वीक्षवातरसनांश्चधुरः कुमारान् वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् वेत्रेण सा स्खलयताम् अथ दर्हणास्थौ तेजोविहस्य भगवत्प्रतिकूलशीलौ ताभ्यामिषत् स्वनिमिषेषु नि निषिध्यमानं स्वर्हत्तमाह्यपिहरे प्रतिहारपाभ्यां ऊचू सुहृत्तमधिद्रुषितपङ्क ईषत् कामानुजेन सहसात उपप्लुताक्षाः मुनय ऊचो को वा मि हैत्यभगवत्परिशर्ययोश्चेर् निवसतां विषमः स्वभावः तस्मिन् प्रशान्तपुरुषे गदविग्रहे वा कोवात्मवत्कुहकयो परिशङ्कनीयः न्यह्यन्तरं भगवतीह समस्तकुक्षो आत्मानमात्मनि नभो नभसीव धीराः पश्यन्ति यत्र युभयो सुरलिङ्गिनो किं व्युत्पादितं ह्युधरभेदि भयं यतोस्य तत्त्वा परमस्य विकुण्ठ भर्तोर्कर्तुं प्रकृष्टमिह धीमहि मन्द लोकानितो व्रजतमन्तरभावदृष्ट्याम् पापीयशस्त्रयि मेरि रिपवोऽस्य यत्र तेषामितीरितम् उभाववधार्य घोरं तं ब्रह्मदण्डमनिवारणमस्त्रभुगैर् सत्यो हरेरनुचरा उरुप्यदस्तत् पादग्रहावपदतामतिकातरेण भूयादगो निभगवद्भिरकारिदण्डो यो नो भ्यशेषं मा वोनुतापकलया भगवत्समृदिग्नो मोहो भवेदिहतु नो व्रजतो रथोदः एवं तथैव भगवान् अरविन्दनाभस्वानां विबुध्य सदधिक्रमार्यहृत्यः तस्मिन् ययौ परमहंसमहामुनीनाम् अन्वेषणीयचरणौ चलयन् सहस्रेर् तं त्वा गतं प्रतिहृतौ पैकं स्वभुम्बेर्तेष क्षदाक्षविषयम् स्वसमाधिभाग्यं हंसश्रियोऽर्व्यनजयो शिववायुलोल सुप्रादभत्सशिकेशरशीकराम्भुं कृष्णप्रसादसुमुखं पृहणीयधाम स्नेहावलोककलया हृदि संस्पृशन्तम् श्यामे पृता पुरसि शोभितया श्रिया स्वः चूडामणिं सुभगयन्तमिव आत्मदिष्ण्यं पीतां सुखे पृथुनिधम्बिनिविस्फुरन्त्या काञ्च्यालिभिर्विरुतया वनमालया च वल्कुप्रगोष्ठवलयं विनतासुधांसे विन्यस्तहस्तमितरेण धुनानमब्जं विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह घण्टस्थलोन्नसमुखं मणिमत्किरीटं दोर्दण्डशण्डविवरे हरतापरार्घ्य हारेण गन्धरगतेन च कौस्तुभेन त्रोपसृष्टमिति सोत्स्मितमिन्दिराय स्वानान् धिया विरचितं बहुसौष्ठवाढ्यं मह्यं भवस्य भवतां च भजन्तमङ्गं नेमुर्निरीक्षणं न तस्यारविन्दनयनस्य पदारविन्द किञ्जल्कमिश्र तुलसीमखरन्धवायोर् अन्तर्गतस्वविवरेण चकार तेषां संक्षोभम् अक्षरजुषामपि चित्ततन्वोर्देवा अमुष्यवतनासितपद्मघोषम् उद्वीक्ष्य सुन्दरतराधर कुन्दहासं लब्धासिशः पुनरवेक्ष्य तदीयमङ्घ्री द्वन्द्वं नकारुणमनिश्रयणं निधत्युः पुंसां गतिं मृगयताम् इह योगमार्गैर्ध्यानास्पदं बहुमतं नयनाभिरामंस्नोर्दर्शयानम् अनन्यसिद्धैर् औत्पत्तिकै समगृणन् कुमारऊचो योऽन्तर्हितो हृदिगतोऽपि दुरात्मनां त्वं सोत्यैव नो नयनमूलमनन्तराद्धा यर्ह्येव कर्णविवरेण गुहां गतो न पित्राणुवर्णितरः भवधुद्भवेन तं त्वां विदाम भगवन् परमात्मतत्त्वं सत्त्वेन सम्प्रतिरतिं रचयन्तमेषाम् तत्ते नु तापविदितैर्दृढभक्तियोगैर् उक्रन्तयो कृतिविदोर्मुनयो विराघाः नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किन्त्वन्त्यदर्भितभयं भ्रुव उन्नयैस्ते शरणा भवतः काथाय कुशलारसज्ञाः कामं भव स्ववृजिनैर्निरयेष्णत्सतात् चेतो लिवध्यति पदयो ते पदयोरमेत वाचस्य न तुळसि शोभा पूर्येतते गुणगणर्यधिकर्णरन्ध्रः प्रादुश्चकर्त्रयदि तं पुरुहूतरूपं तेने स निर्वृतिमवापुरलं दृशो नः तस्मायितं भगवते नम इद्विधेम योऽनात्मनां भगवान् प्रतीतः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे जय विजयो सनकादिशापो नाम पञ्चदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द गोविन्द सद्गुरुमहराजकी जय